दक्षिणं वा अथ वामं वा पार्श्वमासीतपण्डितः रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते नित्यं हि प्रतिषिद्धन्तो पुरस्तादासनं महत् न च सन्दर्शने किञ्चित् प्रवृत्तमपि सञ्जयेत् अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् न मृषाभीतं मनुष्येषु प्रकाशयेत् असूयन्ति हि राजानो नरानृतवादिनः तथैव चाव मन्यन्ते नरान्पण्डितमानिनः शूरो न दृप्तः बुद्धिमानिति वा पुनः प्रियमेवाचरन्द्राज्ञप्रियो भवति भोगवान् ऐश्वर्यं प्राप्य दुष्प्रापम् प्रियम् प्राप्य च राजतः अप्रमत्तो भवेद्राज्ञप्रियेषु च च यस्य कोपो महाबाधः प्रसादश्च महाफलः